नमो नमः स्वागतं सर्वेषां नमो नमः नमो नमः नमो नमः अस्तु प्रार्थनया आरम्भं कुर्मः जयन्ति जयन्तिभगिनी भवती वदति वा अद्यदिनस्य प्रार्थना वदामि बेनि वदतु श्रीपरमात्मने नमः ॐ पाताय प्रतिबोधिताम् भगवता नारायणेन स्वयम् व्यासेन प्रतिताम् पुराणमुनिनाम् मध्ये महाभारतम् अद्वैतामृतवर्षिणीम् भगवतीमष्टादशाध्यायिनीम् अम्ब त्वामनुसन्दतामि भगवद्गीते भवद्वेषिणीम् नमोऽस्तु ते व्यासविशालबुद्धे उल्लारविन्दायतपत्र नेत्र येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः प्रपन्नपारिजाताय स्तोत्रवेत्रैकपाणये ज्ञानमुभ्राय कृष्णाय गीतामृतदुहे नमः सर्वोपनिषदो भावो दोक्ता दुग्धम् गीतामृतम् महत् वसुधेवसुतम् देवम् कंसचाणूरमदनम् देवकी परमानन्दम् कृष्णम् वन्दे जगद्गुरुम् धन्यवाद धन्यवादाः धन्यवादाः पुनः एकवारम् सर्वेषाम् स्वागतम् अस्माकम् वर्गे अधुना अद्यदिनस्य विषयः अस्ति लङ्लकार लङ्लकार इत्युक्ते लङ्लकार किं सूचयति भूतकाल इति पास्टेन्स् तत्र अनद्यतनभूतकाल इति अनद्यतनभूतकाल पश्यन्तु अहं कानिचन वाक्यानि वदामि बालकः पाठम् अपठत् बालकः अक्रीडत् सः अगच्छत् अत्र सर्वेषु स्थलेषु तत्र अकार श्रूयते आदौ अकार अस्ति अनन्तरं रूपमस्ति तत्र लङ् लकाररूपाणि एकनिमिषं तत्र स्क्रीन् शेर् करोमि प्रथमं ता तु लङ् लकाररूपाणि पश्यामः अनन्तरं प्रत्ययस्य विषये अपि वदामि तत्रापि परस्मैपदि धातु आत्मनेपदी धातु द्वयोः कृते प्रत्ययाः भिन्नाः इति अस्ति पश्यन्तु होदय भवान् पठति वा कर्तरि लङ्लकार परस्मैपदम् पठति वा कृपया कर्तरि लङ् लकारः परस्मैपदम् अपठत् अपठद्म् अपठ, अपठन। अपठः अपठतम् अपठत अपठम् अपठाव तत्र पश्यन्तु सर्वेषु स्थलेषु तत्र अकार अनन्तरं प्रत्ययस्य कृते यथा अहम् उक्तवती तत्र लट्लकारस्य कृते परस्मैपदीं पीतः अन्ति सीथ मी वहमः आत्मनेपदी तेई से इधे द्व ए वह महे तत्र अंति पश्यपठ वर्जयि तत्क अठत अपठद्वय दृश्य है तत्र तदाते यदा तकार अस्त पदान्ते तकारस्य तृतीयवर्ण आदेश भूत्वा दकार तवर्ग तवर्ग त थ द ध न इति तवर्ग तवर्गे प्रथमवर्ण त तस्य तृतीयवर्ण अपि भवितुम् अर्हति इत्युक्ते वैकल्पिकरूपेण आप्शनल् अपठत् अपि भवति अपठत् अस्माकं पुस्तके केवलं तत्र अपठत् इति एकम एव रूपं दृश्यते परन्तु तत्र व्याकरणदृष्ट्या अपठत् अपठत् रूपद्वयं सम्भवति अपठत् वा अपठत् इत्युक्ते ता, ताम् अन् विसर्गः मध्यमपुरुषे एकवचन विसर्गः तं त अ पशु भेद कह प्रथमपुष एक अठत परु मध्यमुष बहुवचने अठत तथमपुरए एक हल्ते तकार हलूपम दृश्य है परंतु अर्णवकार अकार अपठत तूर्ण तृश्य है हा द्वयोः मध्ये भेदः अस्ति एकम रूपमस्ति अपठत, एकमस्ति अपठत इति अस्ति अनन्तरम् उत्तमपुरुष अं व अपठम् अपठाव अपठाम अपठम् अपठाव अपठाम प्रथमपुरुषे एकवचन द्विवचन बहुवचन अपठत् अपठताम् अपठन् मध्यमपुरुष अपठः अपठतम् अपठत, अपठत उत्तमपुरुष अपठम् अप अपठाव, अपठाम अपठाम तताम् अन् विसर्गस् इति विसर्ग अस्ति सकारस्य विसर्ग सतं तम्वम इति प्रत्ययाः अधुना पठस्थाने हा गीताञ्जलि भगिनी नमो नमः अत्र नमो अस्ति नमो नमः अस्ति अधुना अत्र पठस्थाने चल इति धातु स्वीकृत्य रूपाणि वदति वा हा भगिनी आचलत आचलत अचलताम् आचलन आचलत अचलः अचलतम् अचलत अचलाम् अचलाव अचलाम सम्यक् अधुनात्र दृश्यधातोः कृते रूपाणि वदति वा दृश्य हा भगिनी दृश्य पश्यति अपश्यत् हा अपश्यताम् अपश्यत् अपश्यत् एकम् भगिनि अपश्य hmm. अपश्य अपशतम् अपशत अपशतम् अपशताव अपशताम्यक् hmm. योग्यं धन्यवादः धन्यवाद भगिनि अधुना राधाभगिनी राधाभगिनी तत्र अस्माकं पुर राधाभगिनी अस्ति वा आम् आम् अस्ति नमो नमः अस्माकं पुरतः तत्र तालिका अस्ति हा अपठत् अपठत् एवं सर्वं तत्र एतानि सर्वाणि रूपाणि प्रथमपुरुष एकवचन द्विवचन बहुवचन तथैव मध्यमपुरुष उत्तमपुरुष एतानि सर्वाणि रूपाणि तत्र कर्तुपदं पूरयति वा कर्तुपदस्य योजनां कृत्वा वदति वा आं भगिनि प्रयत्नं करोमि वदतु बालकः अपठत् बालकौ अपठतां hmm. बालकाः अपठन् सत्यं hmm. त्वम् अपठः युवाम् hmm. अपठतं hmm. यूयम् अपठत अहम् hmm. अपटम् hmm. आवाम् अपटाव hmm. वयम् अपठाम बहु सम्यक् उत्तमम् उत्तमं धन्यवादः अधुना रमाभगिनी रमाभगिनी अस्ति वा अस्तु भगिनी हा अधुना रमा भगिनी तत्र तालिका अस्माकं पुरतः राधाभगिनी कर्तृपदं सर्वाणि कर्तृपदानि सा पूर पूर पूरयितवती अधुना भवती कर्मपदं कर्मपदस्य योजनां करोति वा इत्युक्ते तत्र राधाभगिनी उक्तवती बालकः अपठत् भवती कर्मपदस्य योजनां तत्र करोतु पाठम् अत्र पश्यन्तु भगिनी राधा भगिनी उक्तवती बालकः अपठत् हा, बालक हा अपठत् अधुना अपठत। कर्मपदस्य योजना इत्युक्ते किं बालकः किम् अपठत् किमपि सः अपठत् ओके तत्र कर्मपदमस्ति ऑब्जेक्टी अस्सी खलु तक पाठ अपठत तथा बालक काव्यम अठत बा कविता अपठत स्थल आम सर्वेशु कि स्थल द्वितिया पदा कर्मपदम् अस्ति यथा द्वितीयान्तपदम् अत्र कर्तरिप्रयोग अस्ति अतः कर्मपदम् अधुना वदतु रामः पाठम् अपठत् रामौ आन् रामौ भगवद्गीता अपठताम् Hmm, तत्र बालकौ वा रामो द्वि द्विवचान्तपदम् भगवद्गीताम् किमर्थं तत्र अकारान्तशब्द अर्थ भगवद्गीताम् अपठताम् अपतकां hmm? योग्यं योग्यम् अग्रिमे रामाः भगवद्गीताम् अपठन् सम्यक् सम्यक् अग्रिमे त्वं त्वम् रामायणम् अपठ अपठः त्वां पठ रामायण अपठः युवा युवाल्मीकिरामायणम् अपठ अपठ योग्यं योग्यं यूयं महाभारतम् अपठतम् योग्यं सम्यक् अग्रिमे अहं नारायणीयम् आपन्नम् उत्तमम् अग्रिमे युवां ललितासहस्रनामम् अपतावत् पुनः एकवारं वदतु यु युवाम् ललिता सप्तमपुरुष हा उत्तमपुरुषद्विवचन किं भवति अत उत्पठतम् अपठतं हा न न उत्तमपुरुष त्वां न त्वम् इति मध्यमपुरुषः उत्तमपुरुष अहम् आवा आवा विष्णुसहस्रनामम् अपठाव उत्तमम् अनन्तरं वयं ललितासहस्रनामम् अपठामः अपठम् उत्तमं बहु सम्यक् सम्यक् अधुना श्यामला भगिनी अस्ति वा श्यामलाभगिनी वक्तुं शक्नोति वा आ, अस्तु भगिनि अहं वदामि हा वदतु अधुना गम् धातोः रूपाणि वदति वा गम् धातोः स्वीकृत्य तत्र तालिकां दृष्ट्वा रूपाणि वदति वा अहं अहं पाठं अपठत् न गम् गम् धातु गम् धातु तत् रूपं किं भवति अगच्छत् अगच्छतां तत् वा गम् धातु स्वीकृत्य पाठशालाम् अगच्छत् भगिनी एकमेकं क्रमेण गच्छामः प्रथमं धातु केवलं लङ्लकाररूपाणि वदति वा गम् धातोः कृते अगच्छत् आगच्छत् आगच्छम् अगच्छन् अगच्छ अगच्छतम् अगच्छत अगच्छम् अगच्छाव अगच्छम अधुना पदम्, उपयुज्य वदतु वाक्यानि बालिका बालिका विद्यालयं विद्यालयं गाविद्यालयम् अगच्छत् विद्यालयम् अगच्छत् हा योग्यम् बालकः बालकः पुष्पाणि गन् ग्रीतुम् आगच्छताम् बालकौ पुष्पाणि ग्रीतु आगच्छताम् mm. रामः रामः रामः परीक्षां लिखितुं लिखितुम् आगच्छन् हा रामः न तत् किं भवति बहवः सन्ति खलु रामाः बालकाः छात्राः परीक्षां लेखितुं अगच्छन् आगच्छन् बहवः सन्ति बहुवचनान्तपदम् hmm. इतोपि वदतु अग्रिमे सः uh, uh, uh, mm -hmm. uh, मुम्बैनगरे अग अगच्छं uh -huh. त्वं नगर नगरम् अगच्छनगरे अगच्छम् अगच्छ गच्छ त्वं मुम्बैनगरे अगच्छ युवां युवां अगच्छतम, आगच्छतम् त्वं युवां सत्यं योग्यम् में, यूयं mm. मन्दिरम् अगच्छत हा उत्तममस्ति अधुना अन्तिम उत्तमपुरुषस्य कृते वदतु त्रीणि वाक्यानि अहम् अहम् अहम् अहं विद् विद्यालयम् अगच्छम् अगच्छम् हा अहम् अनन्तरं द्विवचनान्त वयं वयम् अहम् आवां द्विवचन आवाम् आवाम् आवां वयं मन्दिरम् अगच्छाव अहम् आवां सत्यम् अधुना बहुवचन वयं uh, uh, वयं uh, uh, uh, mm -hmm. मन्दिरे आगच्छाम वयं मन्दिरम् अगच्छामः वयं मन्दिरम् आगच्छामः मन्दिरं गत्य गत्यार्थे द्वितीया हा यत्र गमनीयमस्ति विद्यालयं मन्दिरं पाठशालां तस्य नदीम् यत्र गमनं भवति तस्य द्वितीया योग्यमस्ति भगिनी धन्यवादः योग्योग्य अधुना जयन्ती भगिनी जयन्ति भगिनी अस्ति वा इति धातु स्वीकरोतु स योग्यं तत् धातु स्वीकृत्य वाक्यानि वदति वा कर्तुपदं कर्मपदं क्रियापदं hmm? वदति सः मन्दिरे सः अत्र अतिष्ठत् योग्य रामः लक्ष्मणः वने आतिष्ठताम् राम रामलक्ष्मणौ रामणौ राम च वक्तुं शक्य शक्यते वा रामः च रामः च लक्ष्मणः च अपि वक्तुं वने वने अपट वने आतिष्ठताम् हा योग्यं वय योग्यं रामः रामः लक्ष्मणः सीता च वने अतिष्ठन् योग्यं योग्यम् भवती तिरुमला तिरुमलातः सारि भवतः तिरुमला मन्दिरे अतिष्ठः अतिष्ठ हा। अत्र किं यतो भवति यतोहि वयं भवान् भवति इति उपयोज्यामः तत्र मध्यम मध्यमपुरुषस्य कृते त्वं युवां युयम् एवमस्ति तद्भवति यदा सम्भाषणे वा एकवचनम् आम् आम् आम् आम् अतः त्वं युवां यु एवं त्वं तिरुमलामन्दिरे अतिष्ट अतिष्ठः युवान् बेङ्गलूरुनगरे अतिष्ठतं यूयम् mm. mm. यूयम् संस्कृतभारतीमध्ये मध्ये अतिष्ठ आतिश्ट, अतिष्ठत अहम् mm. इदानीं गृहस्य बहिः अतिष्ठम् तत्र गृहाद् बहिः इति आगच्छति रूपं गृहात् बहिः आम् बेनि गृहात् बहिः आतिष्ठम् आवाम् वय आवां, आवां गृहात् बहिः आतिष्ठाव वयं गृहात् बहिः आगच्छ आतिष्ठाम योग्यम् सम्यक् अस्ति योग्य धन्यवादः हा अधुना अद्य मम चिन्तनमस्ति मौखिकरूपेण अभ्यासं कुर्मः तदा पश्यामः कथं भवति चेत् हा अधुना अधुना अहमेकं वाक्यं वदामि तत् वाक्यं हा सम्यक् भारतमहोदयः अस्ति खलु अत्र भारतमहोदय वक्तुं शक्नोति वा हां नमो नमः अहमपि अस्मि भगिनी वीणा भगिनी अपि अस्मि अपि अस्ति सम्यक् सम्यक् उत्तमम् उत्तमम् अस्तु अस्तु अस्तु अधुना प्रथमता तु भारतमहोदयस्य कृते भारतमहोदय अहमेकं वाक्यं वदामि तत् वाक्यं पुरुषः कः वचनः वचनं किम् इति भवान् वदतु अनन्तरं तस्य परिवर्तनं सर्वाणि रूपाणि तत् वाक्यम् उपयुज्य सर्वाणि रूपाणि वदति अहमेकं वाक्यं वदामि सः अक्रीडत् सः अक्रीडत् अत्र पुरुषः कः वचनं किम् इति प्रथमं प्रथमपुरुष प्रथम खलु उत्तमं लङ्लकार परश्व अधुना सह अक्रीडत् इति वाक्यं स्वीकृत्य सर्वाणि वाक्यानि सर्वाणि रूपाणि लङ्लकार उपयुज्य वदतिवा। वा सः अक्रीडत् तौ अक्रीड क्रीड क्रीडताम् अक्रीडताम् ते अक्रीड क्रीडय अक्रीडन् अक्रीडन् ओके त्वम् अक्रीडतः युवां त्वम् अक्रीडः इति अक्रीड क्रीड इति दातु अक्रीडः युवाम् अक्रीडतम् अक्रीडत अहम् अक्रीडम् आवाम् अक्रीडाव वयम् आ बहु सम्यक् उत्तमम् उत्तमं महोदय उत्तमं धन्यवाद धन्यवादः अधिना वीणा भगिनी वीणा भगिनी अहमेकं वाक्यं वदामि भवति प्रथमतः तु तत्र पुरुषः वचनं विषयक अनन्तरं परिवर्तनं अस्तु अध्यापकः अध्यापकः प्रश्नम् किञ्चित् विना हा अध्यापकाः अध्यापकाः प्रश्नम् अपृच्छन् अध्यापकाः प्रश्नम् अपृच्छन् प्रथमपुरुष बहुवचन भगिनी उत्तमम् अधुना परिवर्तनम् अध्यापकाः पाठम् अपठत् न तत्र प्रश्नं पृच्छ तत् प्रश्नं पृष्ट हा हा तत् तत् तस्मिन् परिवर्तनं व्याकरणदृष्ट्या केवलं लकाररूपाणि परिवर्तनं प्रश्नम् एव स्वीकरोतु अनन्तरं कर्तुपदम् अपि परिवर्तनं करोतु तत्र अपि क्रियापदम् प्रश्नम् प्रश्नम् अपृच्छताम् अध्यापकः अध्यापकः प्रश्नम् अपृच्छत् अध्यापकः प्रश्नम् अपृच्छताम् अध्यापकः कर्ता यदा अहम् अपृच्छताम् इति वदामि तदा अध्यापकः एव कर्ता भवेत् वा एव अध्यापक अस्ति चेत् अपृच्छताम् इति आगच्छति वा सः अपृच्छ अध्यापकौ आ सम्यक् अध्यापकौ अध्यापकप्रश्नम् अपृच्छताम् अध्यापकाः प्रश्नम् अध्यापकाः प्रश्नम् अपृच्छन् सम्यक् अग्रिमे अध्यापकः प्रश्नम् अपृच्छः अपृच्छः अत्र अध्यापकः इति न किम् आगच्छति त्वं प्रश्न अस्तु त्वं प्रश्नं पृच्छः यूयं अ... नो hmm. त्वम् किमस्ति सेवां युवांयं युवां युवां यूयम् युवां युवां प्रश्नम् अपृच्छतम् युवां प्रश्नम् अपृच्छन् अपृच्छत् त्वं युवां यूयम् यूयम् मध्यमपुरुष बहुवचन यूयम् यूयम् प्रश्नम् अपृच्छत् अपृच्छत् अपृच्छत् अस्तु भगिनि प्रश्नम् अहं प्रश्नम् अपृच्छम् योग्यं अहं वयं न किमस्ति आवाम् आवां सारि आवाम् आवां प्रश्नम् अपृच्छाव आवाम् प्रश्नम् अपृच्छाम अत्र आवाम् एव भवति वा उत्तमपुरुषबहुवचनान्तपदम् आवामेव अस्ति वा अहम् आवाम् किमस्ति वयं वा। वयं वयं प्रश्नम् अपृच्छाम अपृच्छाम अधुना स्पष्टमस्ति भगिनि हा भगिनी स्पष्टमस्ति धन्यवादः भगिनी हा अधुना अवस्तु महोदय अवस्तु महोदय अत्र वाक्यं वदामि तत्र अहम् अहं गुरुम् अनमम् अनमम् अहं गुरुम् अनमम् पुरुषः कः किम् अहं गुरुम् अन्न अनम प्रथमपुरुष बाहुवचनम् सो उत्तमपुरुषवचनम् पुरुष धातुम् अधुना वाक्यानि वदति वा सः गुरुम् अनमत् नम इति धातु नमधातु त्यः गुरुम् अनमत् सम्यक् अग्रिमे गुरुम् अनमताम् उत्तमं अनमताम् उत्तमम् अग्रिमे अग्रिमे पठस्थाने नम अग्रिमे विसर्ग अनमः त्वं अनम त्वं युवाम् अनमतम् उत्तमम् युवा गुरुम् अनमत उत्तमम् अग्रिमे न ना तत्र इतोपि मध्यमपुरुषबहुवचन किं भवति नमत आं यूयं गुरुम् अनमत अत्र उत्त प्रथमपुरुषे एकवचन अनमत् मध्यमपुरुषे बहुवचन अनमत उत्तमम् अग्रिमे उत्तमपुरुषम् अहं गुरुम् अनमम् Hmm? आवाम, आवाम गुरुं। hmm? आ नमाव आ नमाव नव अनमाव अनमाव चलाव अचलाव नमाव तत्र दीर्घत्वं दृश्यते यतोहि तत् प्रत्ययस्य कृते अम् व एवमस्ति परन्तु तत्र दीर्घत्वम् इति एकं सूत्रमस्ति तस्मात् कारणात् तत्र अपठाव अनमाव अक्रीडाव एवं भवति अतः वाक्यम् आवां गुरुम् अनमाव इति अग्रिमे बहुवचने बहु उत्तम उत्तम सम्यक् उत्तममस्ति उत्तममस्ति आवस्तु महोदय सम्यक् धन्यवाद अधुना भगिनि एकप्रश्नः सो स So मत, पुरुष तत् कथमस्ति वदामि एकनिमिषं कथमस्ति तत् अत्र प्रत्ययस्य विधानं वयं कुर्मः तत् कथम् अस्ति एकवारं अत्र पश्यन्तु कथं प्रत्ययः सन्ति तत् उत्तम क्षम्यतां प्रथमपुरुष एकवचन त प्रथमपुरुषद्विवचन तां तता ताम् अन् अनन्तरं मध्यमपुरुष एकवचन मूलतः तत् स इति अस्ति स तं स तं त न प्रथमपुरुषे एकवचन त मध्यमपुरुषे बहुवचनात् तनन्तरम् उत्तमपुरुष अम् व इति अस्ति अधुना पश्यन्तु स विषये तत्र स एतस्य परिवर्तनं तत्र सूत्रमस्ति तेन तस्मात् कारणात् स एतस्य परिवर्तनं विसर्गे भवति सो इने प्रथमतः तु तस्य रुत्वं भवति रुत्वं भूत्वा अनन्तरं विसर्गः अतः <coughs> तत् स इति न वदामः अधुना पश्यन्तु अस्माकं रूपम् अस्माकम् अधुना नमधातुविषये ओगस्ट् महोदयः उक्तवान् तत् अ तु आगच्छति एव अ अस्ति नम् नम अस्ति तत्र किं भवति अनम अधुना विसर्ग सकार अस्ति खलु सकारस्य परिवर्त विसर्गे अतः अनमः इति भवति धन्यवाद भगिनि तत्र तताम् अन् सतं तम्वम एते सर्वे प्रत्यया लङ्लकार परस्मैपदी लङ्लकार आत्मनेपदि प्रतेया भिन्नाः सन्ति तत् अग्रिमे बुधवासरे वयं कुर्मः अद्यदिने केवल परस्मैपदीरूपाणि लङ्लकार तताम् अन् सतं त अं व म एवम् अत्र पश्यतु तताम् अन् सतं त स इत्युक्ते विसर्ग विसर्ग अत्र अं एवमस्ति परन्तु एकं सूत्र एकं सूत्रमस्ति तस्मात् कारणात् तत्र वकारात् पूर्वं वकारात् प्राक् आकार आगच्छति यतो हि अ पठ अनन्तरं व अस्ति परन्तु तत् पठ आकारस्य आ भवति अपठाव अपठाम इति भवति अस्तु अधुना स्पष्टमस्ति कृते उत्तमम् अस्ति अस्तु अधुना कथां प्रति गच्छामः mm. mm. न किञ्चित् भिन्नं एवं करोमि वीणा भगिनी भवती आरम्भं करोति वा, वा? <coughs> अस्तु भगिनी कथं तत् शिक्षकः गरीयसि भक्तिरेव गरीयसि न तु क्रमः गरीयसी इत्युक्ते उत्तमम् आ, चुक्ते। चुक्ते। उत्तम। आ। <laughs> जननी जन्मभूमिश्च स्वर्गादपि स्वर्गादपि गरीयसीय गरीयसी। श्रेष्ठत्वं दृश्यते कम्पेरिटिव् इति गरीयस् प्रत्ययस्य इय, इष्टन् प्रत्ययः इयसून् प्रत्ययः न तु क्रमः इत्युक्ते भक्ति इति भावनायाः महत्त्वं तस्य महती अधिका क्रमस्य न पश्यामः किमस्ति कथा पठतु कश्चित् पण्डितः ग्रामीणस्य कस्यचित् hmm. गृहस्य पार्श्वे थे स्थितेन मार्गेण गच्छन् आसीत् hmm. तदवसरे सः ग्रामीणः कृषिकः भगवन्तम् प्रार्थयत हे भगवन् hmm. आयाहि मम गृहम् भोजनम् ते hmm. दास्यामि श्रान्तः फलुत्वम् hmm. आगच्छ अत्र शय्यान्ते परिकल्पयिष्यामि hmm. तव पादौ इष्यामि hmm. व्यजनेन वीजयिष्यामि इत्येवम् किमस्ति अत्र स्वशब्दैः वदति वा प्रयत्नं प्रे, करोमि भगिनि एकं पण्डितः एकं ग्रामस्य कस्यचित् गृहस्य पार्श्वे स्थितेन किञ्चित् किञ्चित् श्रुतवान्वसरे एकः पण्डितः हा एकः पण्डितः पश्यन्तु तत्र विशेषणपदं विशेष्यपदं विशेष्य तत्र विशेषणमित्यस्य अब्जेक्टिविटि पण्डितः विषयकः विशेषणपदं तदा तत् एकः एव भवति खलु एकः पण्डितः एकं पुस्तकम् एकं पुष्पं, एका महिला एवमस्ति हा यद् लिङ्गं वचनं वयं दृष्टवन्तः अतः तत् एकः पण्डितः इति अस्तु भगिनि अह एकः पण्डितः कश्चन गृहस्य पार्श्वे गच्छन् आसीत् तदवसरे mm -hmm. सः किञ्चित् श्रुतवान् प्रार्थनं mm -hmm. श्रुतवान् mm -hmm. uh, प्रार्थनमस्ति uh, mm -hmm. uh, स भक्तः भा, भगवान् mm -hmm. uh, आह्वानं ददाति तस्य ah. गृहम् आग <laughs> <laughs> तस्य uh, mm -hmm. गृहम् आगच्छ आगच्छन्तुम् आ, आ, पर आगच्छन्तु ततः भोजनं भोजनमपि कर्तुं श्रान्तस्याः खलु त्वम् इति किं भगिनि श्रान्तः इत्युक्ते अस्तु भगिनि अस्तु भगिनि आगच्छ अत्र सः निद्रां कर्तुमपि आह्वानं ददाति परिकल्पयिष्यामि इत्युक्ते अहं बेड् दास्यामि इति वा संवाहयिष्यामि इत्युक्ते किं भगिनी पश्यन्तु भगवान् सः किं कल्पयति भगवानः भगवान् क्षम्यता भगवान् श्रान्तः हा भगवान, भगवान तत्र सर्वेषां जनानां सन्देहनिवारणं तत्र तेषां कृते अत्र तत्र, तत्र गमनम् अस्ति एवं सर्वं दिनभरस्य दिन दिन सूर्य सूर्योदयात् प्राक् अहर्निशः भगवान् करोति अतः सः श्रान्तः तस्य कृते शय्यां परिकल्पयिष्यामि सर्वम् एवं सर्वं लुट् लकार इत्युक्ते भविष्यत्काले अहं किं किं करिष्यामि वयं लङ्लकार् पठितवन्तः अनद्यतनभूत्काल अत्र कस्य भविष्यत्कालस्य गमिष्यामि करिष्यामि वदिष्यामि हा शय्यां परिकल्पयिष्यामि पादसेवनम् इत्युक्ते पादसेवा करिष्यामि पादसेवां करिष्यामि तत्र mm -hmm. पादसेवा इत्युक्ते भविष्यति संवाहयिष्यामि इति संवाहयिष्या एवं तस्य प्रक्षालनं प्रक्षालनं करणीयं पादस्य प्रक्षालनम् अनन्तरम् अहं किं वदामि अद्य तु पेडिक्यूर् इति वक्तुं शक्नुमः खलु एवं अस्तु वाहिष्यामि व्यजनेन विजयिष्यामि तत्र भोजन व्यजनेन इत्युक्ते तत्र लेपनं भोजनम् एवं सर्वं सेवाम् एतादृशी सेवां करिष्यामि इति अस्तु भगिनि अस्तु भगिनी धन्यवादः भगिनी इत्युक्ते प्रार्थनया सह आवाहनं करोति अत्र मनसि मनसि भावना, तस्य तस्य मनसि शुद्धभावना अस्ति शुद्धभावनया सह वदति आगच्छतु एवम् एवं, एवं सर्वम् करिष्यामि अस्तु भगिनि एवं सर्वं हा अग्रिमे किम् अभवत् धन्यवादः श्यामलाभगिनी अग्रिमे पठति वा पण्डितेन श्यामलाभगिनी अस्ति वा अस्तु रमा भगिनी पठति वा अस्तु <laughs> पण्डितेन एषा प्रार्थना श्रुता hmm. देवः तु निराकारः न तस्य hmm. देहादिकम् एवम् स्थिते सः कथम् भुञ्जीत कथम् hmm. तस्य hmm. श्रान्तिः भवेत् कथम् वा सः अस्य मूर्गस्य कृषिकस्य hmm. प्रार्थना सर्व सर्वदा असम् असंब, असम्बद्धाः असंब, mm. अविवेकी अयम् मया सम्यक् बोधनीयः इति विचिन्त्य ah. सः पण्डितः कृषिकस्य गृहम् प्रविश्य अये mm. अविवेकीन् भवता निराकारः भगवान् mm. साकार साकारत्वेन <makes> निर्दिश्यते तस्य mm. निद्राश्रान् शान्त्यादिकम् अस्ति इति परिभाव्यते एतत् महते पापाय भगवान् न खादति न mm. स्वपिति न स्वपिति सर्वदा अनुचितम् अनु अनुचितम् एतत् इति अधुना वदतु श्वशब्दैः किमस्ति अत्र पण्डितेन एषा प्रार्थना श्रुता कश्चन पण्डिता गृहं पारं करोति श्रुत श्रुतवान् एतत् प्रार्थना देवः तु निराकारः न तस्य देहा देहादिकम् द्रष्टुं न अत्र देहादिकम् इत्युक्ते देहधर्म यत् अस्ति अस्माकं कृते देहधर्मस्य पालनम् इत्युक्ते शयनं निद्रा अनन्तरं तत् भोजनं तत् अधुना तत्र देहादि यानि कार्यानि सन्ति तेषां पालनं तु कृते करणीयमेव अस्ति परन्तु भवान् ईश्वर तु निराकारः तस्य देवस्य कथं भोजनं शयनम् अनन्तरं पादप्रक्षालनं भगवतः तस्य न कोऽपि स्वरूपः स्वरूपं निराकारम् आकाररहितत्वेन सः सर्वत्र व्याप्तः कथं तस्य देहादिकर्माणि नास्ति तत्तु अस्माकं कृते एव सन्ति इति च सः चिन्तयति एवं सिद्धे सः कथं भुञ्जीत भोजनं न शक्यते कथ्यते सः कथं भुञ्जीत कथं तस्य श्रान्तिः भवेत् कथम् श्रान्तिः भवेत् कथं वासः स्थगित कथं शयने श्रान्तं करोति अस् अस्य मूर्घस्य कृषिकस्य प्रार्थना तु सर्वदा असम् असम्बद्धाः कृषिकमूर् मूर्धना इति वदति पण्डितः एतत् अहम अविवेकः अयं मया सम्यक् बोधनीयः अहं mm. पाठयित्वा आगच्छामि mm. इति वद इति mm. ah, बोधनस्य आवश्यकता अस्ति ah, पाठनं करोमि इति mm. तस्य अहं ah, uh, तस्य सम्यक् चिन्तनं तस्य चिलकनं बोधनं तस्य बोधनस्य बोधस्य आवश्यकता मया सम्यक् बोधनीय एव सः अविवेकी अज्ञानी न जानाति अतः सः किं कृतवान् पण्डितः अयं मया सम्यक् बोधनीयः इति विचिन्त्य सः पण्डितः कृषिकस्य गृहं प्रविश् प्रविश्य अये अविवेकि अविवेकीन् अविवेकिं भवतानिराकारः hmm. भवता hmm. निराकारः भवान् साकारत्वेन निर्दिश्यते hmm. साकारत्वेन निर्दिश्य ah, निराकारः यस्य आकारः नास्ति स्वरूपं नास्ति तत्रापि सः साकारत्वेन तस्य स्वरूपं विचिन्त्य स्वरूपं मत्वा सः निर्दिश्यते कथमेतत् hmm. hmm? hmm. तस्य निद्राश्रान्त्यादिकम् अस्ति इति परिभाव्यते परिभाव्यते hmm. इत्युक्ते चिन्तयति इति परिकल्पते hmm. परिकल्प्यते परिभाव्यते इति कर्मणि तु तस्य hmm. निराश् अस्ति इति परिभाव्यते अग्रिमे hmm. किं वदति एतत् महते पापाय भवान् mm. न खादति न स्वपिति mm. वा न सर्वदा अनुचि अनुचितम् एतत् इति mm. ओ भवान् न खादति न शय्या करोति इति उक्तवान् mm. mm. mm. सर्वदा अनु अनुचि एतत् इति एतत् प्रकारेण भवान् न नास्ति एव अस्य स्वरूपं नास्ति एव मिथ्यास्वरूपं तत् सः मूर्खः सः मूढः सः अज्ञानी इति सः पण्डितः चिन्तयति चिन्तयति प्रार्थनां श्रुत्वा अनुचितं प्रार्थनाम् अनुचिता प्रार्थना इति धन्यवाद अग्रिमे राधा भगिनी पठति वा आम पण्डितेन एषा प्रार्थना श्रुता न अत्र एतस्य श्रवणात् अभवत् खलु एतस्य श्रवणात् कृषिन् कृषिकः नितरां दिग्भ्रान्तः सः पण्डितम् नमस्कृत्य अवदत् प्रार्थना विर्थनाक्रममपि अहं न जाने hmm. मदीयः प्रार्थनाक्रमः अनुचितः इति मया न ज्ञातम् आसीत् hmm. सौभाग्येन भवान् अत्र उपस्थितः कृपया योग्यप्रार्थनाक्रमः कृषिकः एत एतत् श्रुत्वा दिग्भ्रान्तः भवति सः दिग्भ्रान्तः इत्युक्ते किं कन्फ्यूस्ड् तत्र इत्युक्ते डिरेक्षन् इति दिशा mm -hmm. दिक् हा दिक् भ्रान्तः दिशाहीनः डैरेक्षन्लेस् आम् तत्र भ्रमः जातः तस्य भ्रमः जातः कृषिकस्य मनसि भ्रमः किं वदति एषः इति अधुना सः किम् अभवत् पण्डितं सः पण्डितं नमस्कारं कृत्वा अवदत् आर्यः अहं विद्यावान् नास्ति विद्यावान् वान् अत्र मतुप्रत्ययः मतुप्रत्ययः इत्युक्ते विद्यासहितं वा बुद्धिमान् बुद्धिसहित धनवान् इति तत्र वान् तत्र मम समीपे बुद्धेः अभावः अभावः प्रार्थना क्रम अहं न जानामि मम प्रार्थनाक्रमः अनुचितम् अस्ति इति अहं न जानामि भागेन भवान् उपस्थितम् अस्ति इति अत्र उपस्थितमस्ति कृपया मम प्रार्थनाक्रमं बोध बोधयामि बोधयतु तस्य बोधय्लकारोट्लकार बोध्यताम् इति लोट्लकारोट्लकार इति बोध्यताम् Mm -hmm. क्रमः बोध्यताम् इत्युक्ते भवान् मां बोधयतु इति मम मनसि किमपि तत् अहं तु विद्याहीनः अतः प्रार्थनाक्रमविषयक कथं प्रार्थनां करणीया कथं प्रार्थना करणीया इति एवं सर्वं न जानामि अहं क्रमस्य अपि मम ज्ञानं नास्ति अधुना इति मम सौभाग्यं भवान् अत्र आगच्छति प्रार्थनाक्रमविषयकः बोधम् मां ददातु इति so, योग्य धन्यवादः धन्यवादः अग्रिमे पष्टाञ्जलि भगिनी पठति वा हा भगिनी ततः पण्डितः तम् उपवेश्य शास्त्रीयप्रार्थनाक्रमम् अबोधयत् तदर्थं केचन मन्त्राः अपि तेन बोधिताः सायङ्कालपर्यन्तम् अयं प्रायसः प्रवृत्तः मया योग्यस्य प्रार्थनाक्रमस्य उपदेशेन कश्चन अज्ञानि उद्धृतः इति चिन्तयन् पण्डितः स्वगृहम् अगच्छत् पण्डितः उपदेश कृतवान् Uh, mm -hmm. कृषकः उपदेशं कृतवान् मन्त्रः बोधितवान् uh, mm -hmm. uh, पूजाक्रम प्रार्थनाक्रमं बोधितवान् uh, mm -hmm. बोधितवान् mm -hmm. uh, सायङ्कालपर्यन्तं uh, त uh, प्रायस प्रवृत्तः मीन्स् रिपीटेशन् इस् भ प्रवृत्तः इत्युक्ते प्रयासः प्रयत्नम् अभवत् सायङ्कालपर्यन्तं ृतु वृत्तु वर्तने वृत् इति दातु वर्तने इत्युक्ते तस्य सो चिन्तति एकेन अज्ञानीम् अम् अहम् उद्ध उद्धृतं मीन्स् अत्र धृतः ध्रूधारणपोषणयोः तत्र ध्रू इत्युक्ते उपरि उद्धृतः तस्य उद्धरणम् उद्धरेत् इति उद्धरेत् आत्मानं भगवद्गीताम् उद्धारं मया कृतम् इति सः चिन्तयति पण्डितः किं चिन्तयति अत्र अस्तु एषः तु अज्ञानी एषः तु अविवेकी तस्य उद्धारं मया कृतं केन प्रार्थना क्रमस्य उपदेशेन मन्त्राः अनन्तरं कथं तत्र पूजा करिती एवं सर्वं सह सः बोधितवान् सायङ्कालपर्यन्तं बोधनं प्रचलत् आसीत् अधुना मनसि किम् अहम् उद्धारं कृतवान् इति सः चिन्तयति इति चिन्तयन् पण्डितः स्वगृहम् अगच्छत् अगच्छत् भूतकाल अस्तु धन्यवादः भगिनी धन्यवादः अधुना भारतमहोदयः अग्रिमे पठति वा अनन्तरदिने ततः आरभ्य आं भगिनि हा पठतु अनन्तरदिने प्रातः प्रार्थनाम् उपविष्टः ग्रामीणकृषिकः पण्डितेन उपदिष्टं प्रार्थनाक्रमं महता परिश्रमेण अपि स्मर्तवान् एव स्वय स्वय क्रमः oh, स्वस्य क्रमः अनुचितः mm. इति सः जानाति किन्तु mm. पण्डितेन बोधितः क्रमः न स्मर्यन् स्मर्यते mm. अतः किन् किन्तु किङ्कव्यताः hmm. सः hmm. नितरां परितप्तः अभवत् hmm. आदिनम् तस्य परितापः अनुवृत्तः hmm. किम् अभवत् अत्र स्वशब्दैः वदति वा अनन्तरदिने प्रातः mm -hmm. mm -hmm. प्रार्थनाम् उपविष्टः mm -hmm. ग्रामीणकृषिकः प्रुष, पण्डितेन उपदिष्टं प्रार्थनाक्रमं महता परिशि प्रार्थना ्रमं mm -hmm. परिश्रे परिश्रमेण mm -hmm. न mm -hmm. शक्तवान् इत्युक्ते mm -hmm. पण्डितः तु बोधितवान् सम्यक् mm -hmm. क्रमः कीदृशः भवेत् तत्र मन्त्रोच्चारणम् एवं सर्वं बोधनमभवत् परन्तु सः प्रार्थनाक्रमं न स्मर्तुं शक्तवान् इति तस्य स्मरणे किमपि न अतिष्ठत् mm -hmm. परिश्रमेण अपि स्मर्तुं न शक्तवान् सः स्मरणे स्मरणं कर्तुं न शक्नोति स्मर्तुं न शक्नोति शक्नोति इत्युक्ते सः परिश्रमं कृतवान् स्मरणकारं परन्तु स्मरणे किमपि न आसीद अतः स्मर्तुं न शक्तवान् अधुना अग्रिमं वाक्यं पश्यतु स्वस्य क्रमः इति सः जानाति किन्तु पण्डितेन बोधितः क्रमः न स्मर्यते स्वस्य अनुचित, अनुचित, क्रम अनुचित् अनुचित इति सः जानाति किन्तु पण्डितेन बोधितः क्रम न स्मर्यते न स्मर्यते इत्युक्ते अहं किमपि अयोग्यं करोमि परन्तु यत् पण्डितेन बोधितं तत् न स्मरामि इत्युक्ते कश्चन छात्रः अस्ति आचार्यः वदति भवान् सम्यक् न करोति तत् तत्तु अवगतम् अहं सम्यक् न करोमि परन्तु किम योग्यं तत् न स्मरामि योग्यं किं तत् अहं न स्मरामि इति तस्य स्थिति पण्डितेन बोधितः क्रम न स्मर्यते केवलं तत्र, तत्र एकं दिनं स्वीकृत्य सः बोधितवान् तत्र कथं तस्य स्मरणे भवेत् अग्रिमे पश्यतुता विमूढः एतादृशी स्थितिः महाभारतयुद्धप्रसङ्गे अर्जुनस्य अपि अभवत् किं करोमि किं करणीयं किं न करणीयम् स्वजनान् स्वजना स्वजनस्य मम बान्धवाः सन्ति तत्र मम पितामहः मम मातुलाः सन्ति मम सर्वं मम एव तत् किं करोमि mm -hmm. एता हननं कृत्वा यं मया प्राप्यते तत, योग्यं वा न किं mm -hmm. कर्तव्यता विमूढः विमूढः सम्भ्रमित अवस्था एवं करोमि वा न करोमि इति mm -hmm. किं कर्तव्यता विमूढः सः नितराम परितप्तः अभवत् अभवत् परितप्तः इत्युक्ते सम्पूर्ण तत्र एक्सास्टेड् कम्प्लीट्लि इति खलु okay. तत्र चिन्तनं किं करणीयम् एवं सर्वं मनसि आदिनं तस्य परितापः अनुवृत्तः आदिनम् इत्युक्ते सम्पूर्णं दिवसं सूर्यास्तमं पर्यन्तं तस्य परितापः अनुवृत्तः इतोपि तस्य वर्धनमभवत् तत्र मूढस्थितस्य तस्य मूढस्थितेः इतोपि वर्धनम् अभवत् आदिनम् अस्तु अस्तु धन्यवाद धन्यवादः अजुन अग्रिमे ऑगस्ट महोदय पढ़ती व रात्रो तरभ्य रात्र पंडित पत्ने प्रत्याशी भूय भावद पण्डितः ग्रामीणास्य hmm. प्रार्थना प्रार्थनाक्रमम् अनुचितं वदता त्वया महान् अपराधः कृतः न बुद्धिभेदं जनयेत् hmm. ज्ञानां कर्मसङ्गिनाम् इति गीतावचनं किं त्वया न स्मार्यते सः कृषकः इदानीं स्वीयेन क्रमेण क्रियमाणं प्रार्थनां सुरचितां मन्यते त्वया बोधितः क्रमः तेन न स्मर्यतेरं परिताम्यति सः तस्मात् अहमपि परितपामि इति तत्र आगस्ट् महोदय uh, स्वप्ने इन् uh, पण्डितस्य पं, पंदिता। स्वप्ने सत्यं प्रत्यक्षीभूय भगवान् अवदत् प्रत्यक्षीभूय इत्युक्ते साकार भगवान hmm. की, की भगवान? भगवान से किं किम् अवदत् भगवान् भगवान् सेद् कृषिकास्य वदता अपराधः कृतः अपराधः इत्युक्ते क्रैम् और् तत्र अनुचितं यत् त्वया कृतं तत् अनुचितम् अपराधः इत्युक्ते ग्रेट् मिस्टेक् इति वदामः महान् कृतः एतत् न सम्यक् परन्तु भवान् तत्र ने। ने। भौन्दु भौन्दु गत्वा उक्तवान् भवता भवतः भवतः प्रार्थना अनुचितम् एतत्तु त्वया अपराधः कृतः अयोग्यम् इति गीतावनम बुद्धिभेदम जनए कर्मसंगीना अं कर्मस अस्तव तृतीय अध्या न बुद्धिभेदम बुद्धिभेदे ये जना अज्ञानीजनाः मनसि या धारणा तया तस्याः धारणायाः भेदं न भवेत् इति न जनयेत् बुद्धिभेदं जनयेत् अज्ञानां कर्मसङ्गिनां कर्मसङ्गिनाम् अत्र कर्मसङ्गिनाम् इत्युक्ते पश्यन्तु तत्र यतोहि तत्र कर्म आ, नच, कर्म भगवत गीता की निष्कामक तत्र सर्वे वरंतु ते जशन न कंतु फलापेक्षया फलेच्छा मनसी अम कशा जनानां जाना मन से बुद्धिभेदमचन किं मैं न स्टते अषिक इन क्रेण क्रिय प्रार्थना अनुचिता मनते अंडि किंत शुद्धायाषिक प्राथना तस भवतः प्रार्थना अनुचिता अधुना तत् किं किं तेन किम् अभवत् कृषिकस्य मनसि ओहो हो अस्तु मम प्रार्थना अपि अनुचीता अधुना मम प्रार्थना अपि अनुचीता यत् क्रमः यत् क्रमः पण्डितेन बोधितं तत् क्रमः अपि अहं न स्मरामि अधुना किं करणीयम् प्रार्थना अपि अनुचिता क्रम अभी क्रम से स्मरण न्यु अधुना किं कौमी या बोधित क्रम तेन न स्म तत्क्यकम दिनम सह पठित परंतु तत् क्रम न स्म स्मर्म शनो सह नितरा पड़ताम्य सरां मन से अस्वस्थता खेद तस्मात् अहमपि परितपामि परताम्यति सः अहमपि परितपामि तेन मम मनसि अपि खेदः अधुना भगवान् भक्तः मनसि भक्तस्य मनसि खेदः अधुना मम मनसि अपि खेदः अहमपि परितपामि इति तत्र मम प्रियभक्तः मम प्रियभक्तः अधुना नितरां सः व्यथितः अधुना अहमपि तथैव अहमपि परितपामि मम मनसि अपि व्यथा वेदना इति प्रश्नमस्ति प्रश्नमस्ति अधुना अग्रिमे हा जयन्तीभगिनी पठतु भगवतः तत्र आरभ्य नास्ति भगिनि नास्ति अस्तु अमिना भगिनी पठतु भगवतः अस्तु भगिनी भगवतः एतस्य वचनस्य श्रवणात् पण्डितेन विवेकः प्राप्तः सः उषसि एव उत्थाय कृषिकस्य गृहम् गत्वा भोः भ्रातः त्वम् स्वियेन एव क्रमेण भगवन्तम् प्रार्थयस्व मया बोधितं विस्मृ विस्मृतम् इति चिन्ताम् मा कुरु प्रार्थनायाम् भावः प्राधान्यम् आवहति भाशादि, न केनचिदपि hmm. क्रमेण दर्शिता भक्तिः भगवन्तम् प्राप्नुयात् एव अतः त्वम् स्वीयेन पूर्वतनक्रमेण एवम् प्रार्थनाम् कुरु इति अवदत् hmm. ग्रामीणे प्रार्थनायाम् उध्यते सति पण्डितः अपि तदीयं क्रममेव अनुसरन् प्रार्थनाम् अकरोत् hmm. <laughs> वदतु स्वशब्दैः hmm. भगवतः भाग, वचनं श्रुत्वा निद्रे स्वप्ने स्वप्ने श्रुत्वा पण्डितः अग्रिमे दिने hmm. कृषिकस्य गृहं गत्वा उषसि एव उत्थाय ग्रामी ग्रामीणकृषिकस्य गृहं गतवान् उषसि प्रातःकाले प्रातःकाले प्रातः प्रातःकाले एव उत्थाय गतवान् एकं वक्तुम् इच्छामि तत्र उषा इति उषा इति एक देवी स्वरूपमस्ति उषादेवी निशादेवी इति रात्रौ सन्ध्याकालनिशादेवी इत्युक्ते तत्र कल्पना वेद वेदकालीनः एका कल्पना तत्र सूर्योदय अरुणोदय सूर्यस्य आगमनात् प्राक् तत्र उषादेवी आगच्छति अस्तु mm -hmm. सूर्यस्य आगमनस्य mm -hmm. सज्जि सज्जतां सा करोति इति उषादेवी तत्र तत्र वर्णानां तत्र रक्तवर्ण वा पीतवर्ण एवं सर्वं दृश्यते खलु mm -hmm. तत् उषादेवी सूचयति उषादेवीं सूचयति अतः तत् उषा उषसि एव इत्युक्ते मनसि he was so eager that he just left early in the morning very early in the morning indeed. very early huh? in the morning mm -hmm. to begin yeah mm -hmm. Mm -hmm. Mm -hmm. uh saha mm -hmm. saha saha uktavan gramin krishi shrishi ka krishikatah avadat abhrata tasya eva krama uchitam asti तदेवं पालनं कुरु इति mm, mm, mm. परंतु तस्य बोधनस्य विस्मृ विस्मृतं चिन्तां मत कुरु इति अवदत् mm, mm. ah. प्रार्थनायां प्रार्थनायां भावः एव प्रधानं न yeah. भाषादिकम् इति yeah. भक्तिः अपि yeah. भक्तिः भा, एव गदीयसि इति उक्तवान् केनचिदपि क्रमेण दर्शिता भक्तिः भगवन्तं प्राप्नुयात् एव केनचिदपि क्रमे हा केनचिदपि क्रमेण भगवन् भगवन्तं प्राप्तुं शक् शक्नुव शक्नुवः शक्नुमः इति हा इत्युक्ते क्रमस्य चिन्ता मास्तु मास्तु केनचित् अपि क्रमेण भक्तिः भक्तेः दर्शनं भवति चेत् भगवतः प्राप्ति भवति एव तत्र एवं क्रमं स्वीकृत्य एव वदतु एतादृशम् उच्चारणं करोतु इति न भक्तेः महत्त्वम् अधिकं भक्तिः भक्तिः श्रेष्ठा श्रेष्ठत्वं कुत्र वर्तते भावन अतः त्वं स्वीयेन पूर्वतनक्रमेण एवं प्रार्थनां कुरु हा कथा कथा पूर्वया त्वया कृतवान् तदेव तदेव कुरु इति उक्तवान् आम् त्वया क्रमः यः स्वीकृत्य यथा त्वया पूर्वक्रमस्वीकृतः यां प्रार्थनां कृतवान् यां प्रार्थना या प्रार्थना कृता तथैव कुरु इति अगत्य अस्तु भगिनि ग्रामीणप्रार्थनायाम् उद्यमायाम् उध्यते इति ग्रामीणप्रार्थनायाम् उध्यते सति पण्डितः अपि तदीयं क्रममेव अनुसरन् प्रार्थनाम् अह सः पण्डितः अपि एकम् इदं ग्रामेण कृषिकस्य कृषिकस्य क्रम एव अनुसरन् इति <laughs> वा सत्यं योग्यं योग्यं सम्यक् एव इत्युक्ते अधुना स्थितिः पण्डितः तस्य समीपे शास्त्राणाम् ज्ञानम् बहवः मन्त्राः अपि सः जानाति तर्हि अधुना तस्य एव परिवर्तनम् मनसि परिवर्तनम् पश्यन्तु किम् पण्डितः अपि तदीयं तस्य एव क्रमम् स्वीकृत्य अनुसरन् प्रार्थनाम् अकरोत् तस्य अपि मनसि अत्र पश्यन्तु तस्य प्रार्थना का हे भगवान, मम गृहम् आगच्छतु मम भोजनं स्वीकरोतु तत्र प्रामाणिकतया सः प्रार्थनां करोति हा निर्लेपमन इति हा निष्पापमन निष्कपटमन निष्कपटमनसां तत् पण्डितः अपि तस्य स्वस्य पाण्डित्यं विस्मृत्य अधुना पाण्डित्यस्य त्यजनं कृत्वा अधुना सः एव तत् क्रमम् एव अनुसरं प्रार्थनाम् अकरोत् इति कथां कथायाः अन्ति उत्तममस्ति उत्तममस्ति भगिनि इत्युक्ते तत्र मन्त्राणां ज्ञानम् एवं सर्वं तत् कथं पूजनं भवेत् इति प्रथमं तु प्रक्षालनम् अनन्तरं पुष्पं वहतु एवं सर्वं तु क्रमः तु तस्य महत्त्वम् अस्ति परन्तु क्रमेण यत् वयं कुर्मः क्रमेण कुर्मः परन्तु भावना मन अत्र तत्र विहारं करोति तत् न योग्यम् तत्र पत्रं पुष्पं फलं तोयम् अत्र भक्तिभावनया ददातु तदः भक्त्युपहृतम् अश्नामि प्रयतात्मनः आम् आम् इत्युक्ते अत्र <laughs> अहम् एकम् उदाहरणं वारं वारं, वारं स्मरामि अस्माकं माता किमपि uh -huh. भोजनम् अस्माकं कृते करोति तत्र हा तत्र फैव् स्टार् रेसिपीस् एवं न परन्तु मात्रा कृता मात्रा कृतं यद्भोजनं तस्य रुचिः कथमस्ति मनसा एव सा पचति खलु अतः oh, okay. तस्य रुचि oh. किमर्थं भावनायाः महत्त्वमत्र hmm. एवं खलु hmm. अस्तु समयः अपि धन्यवादः भगिनी धन्यवादः अधुना वदतु एकमेकं एकम। स्वशब्दैः भगिनी प्रार्थनाक्रमः न प्राधान्य सर्वकाले स्मरणं करोतु सर्वकाले सर्वकार्ये भावः सहित स्मरणं करोतु उत्तमम् उत्तमं, उत्तमं। सर्वेषु कार्येषु अतः यत् करोषि यदश्नासि यज्जुसि ददासि यत् यत् कपस्यसि तत एव तत् कुरुष्व सर्वकाले मम स्मरणं कृत्वा कार्यं करोतु बहु सम्यक् बहु सम्यक् उत्तममस्ति भारतमहोदय उत्तमं योग्यम् आम् सन्तानि आसीत् न भगिनी कपिर् मा सन्तकपिर् तुलसीदास आम् आम। कनकदास सर्वे तस्य तरह उदाहम आसिनी अस्त भगनी सत्यम योग्यम योग्यम योग्य योग्य सतसज्जना ये जना तबीर विषय अवती राम हमारा रा जपक हम बैठे आराम की सह वदु सन्तकबिर इत्युक्ते राम इत्युक्ते ईश्वरः सः एव मम कार्यं करोति अहं किमपि न करोमि कर्ता कर्विता सह एव तस्य चिन्तनं सर्वदा भवेत् तेन अपि भवति क्रमस्य विषयकचिन्तनं मास्तु इति टेक्निक् किमस्ति तत, तत्र मा गच्छतु योग्यं भगिनि योग्यम् इतोपि वदन्तु भक्तमेकम् अतिवैराग्येन करोति भगिनी आम् अतः वैराग्य इदानं न प्रधानम् अत्र कदा ज्ञानेन मनसि अहङ्कार वा गर्भभावना वा दम्भभावनायाः प्रकटीकरणं भवितुम् अर्हति परन्तु वैराग्यभावनया यत् कार्यं कृतम् इदं न मम इति भावनया कृतं तेन mm. किमपि काम क्रोध वा एवं सर्वम् एतानि सर्वाणि सोपानानि सन्ति खलु mm. का, कामः ध्वयन्तविषयान् पुंश सङ्गस्येषु उपजायते सङ्गात् सञ्जायते काम, काम क्रोध एतत् सर्वं जायते mm. आम् mm. तस्य mm. चिन्ता एव मास्तु चिन्ता बुद्धिनाशात् प्रणशति तस्य चिन्ताम् एव न सत्यं बहु सम्यक् वयं भगवान् सः बहु सम्पूर्णेन भक्तेन प्रार्थना करोति चेत् सम्यक् भवति सत्यं अवधानं गाड् अवधानं दत्वा केवलं शब्दद्वयम् उच्चारयतु शब्दद्वयस्य उच्चारणमपि महत्त्वपूर्णं भवति योग्यं योग्यम् इतोपि सुपरि प्रेमेण भक्तिभावनेन प्रार्थनां सर्वकार्यं करणीयं महत्त्वपूर्णमस्ति क्रमेण नामस्मरणं करणीयं प्रेम महत्वपूर्ण <gur Jeant> hmm. दीर्घ दीर्घं स्तोत्रं पठनम् एवं सर्वं तत्र पूजा बहुकाल यावत् करणीयम् इति भगवतः अपेक्षा नास्ति तदपि योग्यं hmm. तस्य अपि जीवने स्थानं तु अस्ति तस्य स्थानं तु निश्चयेन अस्ति तत् hmm. पुष्पाणि अनन्तरं पत्राणि एवं महत्त्वपूर्णं परन्तु णा नाम नाम आवयतु न ना, प्रेम्णा नाम्ना यदा आवाहनं भवति तदा तावत् भगवतः इच्छानुसारेण एव भवति तत् भावनारहितं न कदापि न योग्य अगस्ट् महोदय वक्तुमिच्छति वदति वा नौ, नौ। प्रार्थनायां क्रमः न प्रधानम् अस्ति प्रार्थनायां भावः श्रद्धा एव प्रधानम् mm. प्रत्त, अस्ति mm. बहु सम्यक् उत्तमम् उत्तमं मम मनसि सन्तोषः बहु उत्तमं बहु सम्यक् तत्र भावना अन्येषां mm. तत्र किमपि महत्त्वं तादृशं महत्त्वम् एव नास्ति बहु सम्यक् अवश्यम् अतः अस्तु अधुना शान्तिमन्त्रेण स्थगयामः समापयामः सर्वेषां नूतन आङ्ग्लवर्षस्य शुभाशयाः नूतन आङ्ग्लवर्षुभागिनी सर्वेषामपि मम विषयः सर्वे आगतवन्तः इति मम सन्तोषस्य विषयः बहु सम्यक् बहु सम्यक् सर्वेषां नूतनवर्ष अभिनन्दन आम्भाषयाः अभिनन्दन राधा भगिनी शान्तिमन्त्रं वदति वा आं भगिनि सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् असतोमा सद्गमय तमसोमा ज्योतिर्गमय मृत्योर्मा अमृतम् गमय ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिश्शान्तिश्शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ नूतन आङ्ग्ल आङ्ग्लवर्षशुभाषिता सुभाषिताय सर्वेषां वर्षवर्ष धन्यवादः